अथ द्वाविंशः सर्गः तथावसिष्ठे ब्रुवति राजा दशरथः स्वयम् प्रहृष्टवद नो राममाजुहावसलक्ष्मणम् कृतस्वस्थ्ययनम् मात्रापित्रा दशरथेन च पुरोधसावसिष्ठेन मङ्गलैरभिमन्त्रितम् स पुत्रम् मूर्ध्युपाघ्राय राजा दशरथस्तदा ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ततो वायुः सुखस्पर्शो नीरजस्को भवौ तदा विश्वामित्रगतम् रामम् दृष्ट्वा राजीवलोचनम् पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभि निःस्वरैः शङ्खदुन्दुभि निर्घोषः तु महात्मनि विश्वामित्रो ययावग्रे ततो रामो महायशाः काकपक्षधरोधन्वीतम् च सौमित्रिरन्वगात् कलापिनौ धनुष्पाणि शोभयानौ दिशो दशा विश्वामित्रम् महात्मानम् अनुजग्मतु रक्षुद्रो पितामहमिवाश्विनौ अनुयातौ श्रियादीप्तौ बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्विती कुमारौ चारु वपुषौ भ्रातरौ रामलक्ष्मणौ अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ स्थाणुम् देवमिवाचिन्त्यम् कुमाराविव पावकी अध्यर्थयोजनम् गत्वा सरय्वा दक्षिणे तटे ग्रहाणवत्स सलिलम् मा भूत्कालस्य पर्ययः मन्त्रग्रामम् ग्रहाणत्वम् बलामतिबलाम् तथा न श्रमो वाते न विपर्ययः न च सुप्तम् प्रमत्तम् वा सदृशो वीर्ये पृथिव्यामस्ति कश्चन ऋषु लोकेषु सदृशस्तव बलामतिबलाम् चैव पठतस्तातराघवा न सौभाग्येन दाक्षिण्येन ज्ञाने बुद्धिनिश्चये नोत्तरे प्रतिवक्तव्ये समो लोके तवानघा एतद्विद्याद्वये लब्धे नभवेत भवेत्सदृशस्तवा बलाचाति चातिबला चैव सर्वज्ञानस्य मातरौ क्षुत्पिपासेन ते राम भविष्ये नरोत्तमा बलामतिबलाम् चैव पठतस्तातराघवा गृहाण सर्वलोकस्य गुप्तये रघुनन्दना विद्याद्वयमधीयाने यशश्चाथ भवेद्भुवि पितामहसुते ह्येते विद्येतेजः समन्विते प्रदातुम् तव काकुत्स्थसदृशस्त्वम् हि पार्थिव कामम् बहुगुणाः सर्वे त्वय्येते नात्र संशयः तपसा संभृते चले बहु रूपे भविष्य तमो जलम स्पृ्वा प्रहृवदन शुचि प्रतिजग्राहते विद्ये महर्षेताद्यादि राम शुशुभे भीम विक्रम सहस्ररश्भवा दिवाकर गुर कार्या सर्वा निज्यकुशिकाजे उषस्ताम् रजनीम् तत्र सरय्वाम् स सुखम् त्रयः दशरथनृपसूनुसत्तमाभ्याम् तृणशयनेऽनुचिते तदोषिताभ्याम् कुशिकसुतवचोऽनुलालिताभ्याम् सुखमिव सा विबौ विभावरी च इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः